धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीं तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान् शल्यो महावीरो मद्रराजो महाबलः तदप्यारोप्यमाणस्तु तत जानुभ्यामगमन्महीं ततो दुर्यो धनो राजा धार्तराष्ट्रपरन्तपः मानी दृढास्त्रसम्पन्नः सर्वैश्च उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत् स बभौ धनुराधाय शक्रश्चापधरो यथा आरोपयं स्तु तद्राजा धनुषा बलिना तदा उत्तानशय्यमपतद् अङ्गुल्यन्तरताडितः स ययौ ताडितस्तेन तस्मिंस्तु सम्भ्रान्तजने समाजे निक्षिप्तवादेषु जनाधिपेषु कुन्तीसुतो जिष्णुरियेष कर्तुम् सज्जम् धनुस्तत्सशरम् प्रवीरः